ततस्त्वाज्ञापयामासा पाण्डवोरिनिबर्हणः सह सहदेवं युधाम् श्रेष्ठम् मन्त्रिणश्चैव सर्वशः अस्मिन् क्रतौ यथोक्तानि यज्ञाङ्गानि द्विजातिभिः तथोपकरणम् सर्वम् मङ्गलानि च सर्वशः अधियज्ञांश्च संभारान् धौम्योक्तान् क्षिप्रमेव समानयन्तु पुरुषा यथायोगम् यथा इन्द्रसेनो विशोकश्च पूरुश्चार्जुनसारथिः अन्नाद्याहरणे युक्ताः सन्तु मत्प्रियकाम्यया सर्वकामाश्च कार्यन्ताम् रसगन्धसमन्विताः मनोरथप्रीतिकरा द्विजानाम् कुरु सत्तमा तद्वाक्यसमकालम् च कृतम् सर्वम् श्रेष्ठो धर्मराजे युधिष्ठिरे ततो द्वैपायनो राजन् ऋत्विजः समुपानयत् वेदानिव महाभागान् साक्षान् मूर्तिमतो द्विजान् स्वयम् ब्रह्मत्वमकरोत् तस्य सत्यवती सुतः धनञ्जयानाम् वृषभः सुसामासामगो भवत् पैलोः तावसोः पुत्रो धौम्येन सहितोऽभवत् एतेषां पुत्रवर्गाश्च शिष्याश्च भरतर्षभा बभूवुर्होद्रगाः सर्वे वेदवेदाङ्गपारगाः ते वाचयित्वा मोहयित्वा च तम् विधिम् शास्त्रोक्तम् पूजयामासुस्तद्देवय जन्महत् तत्र चक्रुरनुज्ञाताः शरणान्युतशिल्पिनः गन्धवन्ति विशालानि वौकसाम् तत आज्ञापयामास स राजा राज सप्तमः सह देवम् तदा सद्यो मन्त्रिणम् पुरुषर्षभः आमन्त्रणार्थम् दूतांस्त्वम् प्रेषयस्वा शुगान् द्रुतम् उपश्रुत्यवतो राज्ञः स दूतान् प्राहिणोत्तद